नारायणीयं दशकं सेवेण्टी नैन् मीटर् द्रुतविलम्बितम् बलसमेतबलानुगतो भवान् पुरमगाहदभीष्मगमानितः द्विजसुधन्त्वदुपागमवादिनं हृदरसातरसा प्रणनामसा भुवनकान्तमवेक्ष्य भवद्वपुर्नृपसुतस्य निशम्य चेष्टिदं विपुलखेदजुषां पुरवासिनां सरुदि दैरुदि सरुदिदैरुदिधैरगमन्निषा तदनुवन्दिदुमिन्दुमुखी शिवां विहितमङ्गलभूषणभासुरा निरगमद्भवदर्पितजीविता स्वपुरतः पुरतः सुफडा वृता कुलवधूभिपेत्य कुमारिका गिरिसुदां परिपूज्य च सादरं मुहुरया च तत्पदपङ्कजे निपतिता पतितां तव केवलं समव लोककुतूहलसङ्कुले नृपकुले निभृदं त्वयि चष्ठिते नृपसुधा निरगात् गिरिजालयात् सुरुचिरं रुचिरञ्जितदिङ्मुखा भुवनमोहनरूपरुचा तदा विवशिताखिलराजकदम्बया त्वमपि देवकडाक्ष विमोक्षणैः प्रमदया मदयाञ्च कृषे मनाक् क्वनुगमिष्यसि चन्द्रमुखीदितां सरसमेत्यकरेण हरन् क्षणाद समधिरोप्य रथं त्वमपाहृता भुवि तदो विदो निनदो द्विषां क्वनु गतः पशुपाल यदि क्रुधा कृदरणा यदुभिश्च जिता नृपाः न तु भवानुदचाल्यतैरहो पिशुनकैशुनकैरिवकेसरी तदनु रुक्मिणमागतमाहवे वधमुपेक्ष्य निबध्यविरूपयन् हृदमदं परिमुच्य बलोक्तिभिः पुरमयारमया सहकान्तया नवसमागमलज्जितमानसां प्रणयकौतुकधृम्भिदमन्मथाम् अरमह्यः खलु नाथ यथा सुखम् रहसितां हसितां शुलसन्मुखी विविधनर्मभिरेव महर्निशं प्रमदमाकलयन् पुनरेकदा ऋजुमदे किल वक्रगिरा भवान्वरतनो रतनो दधिलोलतां तदधि कैरधलालनकौशलयः प्रणयिनीमधिकं मधिकं माम् अयि मुकुन्द भवच्चरितानि नः प्रगददां सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द